श्रीमद्भागवत्महापुराणं दशंस्कन्ध अथ विंशोऽध्यायः वर्षा ओर् शरदऋतु कवर्णन् श्रीसुकुवाच तयोस्तदद्भुतं कर्मदावाग्नेर्मोक्षमात्मनः गोपास्त्रिभ्य समाचक्षो प्रलम्बवधमेव च गोपवृद्धाश्च गोप्यश्च तदुपाकर्णविस्मिताः मेनिरे देव प्रवरौ कृष्णरामौ व्रजं गतौ ततप्रावर्ततप्रावृ नभस्तला। विद्योतमानपरिधिर्विस्फुटजित नभस्तलां सान्द्रनीलाम्बुदैर्व्योम सविद्यस्तनैस्तनयेत्नुभिः अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ अष्टौ मासान्निपीतं यद् भूम्याश्चोदमयं वशु स्वगोभिर्मोक्तुमारेभिः पर्जन्यकाल आगते तडि त्वन्तो महामेघाश्चण्डस्वसन् वेपिताः क्रीडनं जीवनं शस्यमुचु करुणा इव तपः कृशा देवमीढा आसीद्वर्षीयसी मही यथैव कामतपस्तन् तनुः सम्प्राप्य तत्फलं निशामुखेषु खद्योतास्तमसा भ्रान्ति न ग्रहाः यथा पापेन पाखण्डा न हि वेदा कलौ युगे श्रुत्वा पर्जन्यनिनतं सृजन्गिरः तृष्णिं शयाना प्राज्ञद्वन् ब्राह्मणानिमात्मये आसन्नुत्पथवाहिन्यछद्रनद्योनुशिष्यति पुंसो यथा स्वतन्त्रस्य देहद्रविणसम्पदः हरिता हरिभिः सम्पैरिन्द्रगोपैश्च लोहिता उच्छलीन्द्रकृतच्छायाृणां श्रीरिव भूरिभूत् क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं धनिनामुपतापं च दैवाधीनमजानतां जलस्थौ थलौकस सर्वे नौवारिनिषेवयाम् अविव्रतरुचिरं रूपं यथा हरिनिषेवयां शरद्भिः सङ्गतसिन्धुश्चक्षुभेश्व स नोर्मिमान् अपक्वयोगिनश्चित्तं कामाक्तं गुणयुगि गिर्यो वर्षधाराभिर्हन्यमाना न विव्यथो नभिभूयमाना विस्ने यथा धूक्षजन्तेतसा मार्गा बभूव सन्दिग्धा तृणैच्छन्नाश संस्कृताः नाभ्यस्यमाना श्रुतयो द्विजैकालहता इव स्थैर्यं न चक्रो पुरुषेशो गुणेष्विव धनुर्वियते महामाहेन्द्रं निर्गुणं च गुणिन्यभात् व्यक्ते गुणवृतिङ्करे गुणवान् पुरुषो यथा नरराजोऽनुपच्छन्न दुपच्छन्न नहमत्या भासितया सुभासा पुरुषो यथा मेघागमो सवाशिष्टा प्रत्यनन्देखण्डिनः गृहे सुतप्ता निर्विण्णा यथा पित्वाप कृत्वा पादपापद्भिरासन्नान्नात्मूर्तयः प्राक् क्षामास्तपसा श्रान्ता यथा कामान् सेवया सरस्वशान्तरोधस्तून्यूशुरङ्गापि सारसाः गृहे सुशान्तकृत्येषु ग्राम्या इव दुराशयाः जलौघैर्भिद्यन्त सेतुवो वर्षतीश्वरे पाखण्डी नाम सद्वादे वेदमार्गाकलौ यथा व्यमुञ्चन्वायुभिर्नुन्नां भूते व्योथामृतं घनाः यथाशिशो विस्पस् विस्पतः काले काले द्विजेरिताः एवं वनं तद्वर्षिष्ठं पक्व खर्जूरजम्बुमत गोगोपालैर्वितोरन्तुं शबल प्राविशद्धरी धेनवो मन्दगामिन्य उधो माधो भा भारेण भूयसां यरुर्भगवताहूतादुतं प्रत्यास्त वनौकस प्रमुदिता वनराजिर्मधुत्यतः जलधारागिरे नादान्नासन्नादृशे गुहाः क्वचिन्वनत्पतिर्क्रोडे गुहायां चाभिवर्षते निर्विश्य भगवान् रेमे कन्दमूलफलासनः दध्योदनं समानीतं शीलायां सलिलान्तिके सम्भोजनीयरिबुभे गोपै सङ्कर्षणान्वितः साद्वालोपं साद्वलोपरि संव्यस्य चर्वतो मेलिते क्षणान् तृप्यान्विषान्वश्चतरान् गास्य शोधो भरश्रमाः